नारायणीयं दशकं 97 मीटर मीटर् श्रद्धरा त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यज्ञानं श्रद्धा च कर्ता वसतिरतिसुखं कर्मचाहारभेदाः त्वत्क्षेत्रत्वन्निषेवादितु यदिह पुनस्त्वत्परं तत्तु सर्वं प्राहुर्नैर्गुण्य निष्ठन्तदनुभजनदो मङ्क्षुसिद्धो भवेयम् त्वय्येवन्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थन्त्वद्भक्तायि सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् दस्यौ विप्रे मृगादिष्वपि जसमधिर्मुच्यमानावमानस्पर्धासूयादि त्वद्भावो यावदेषु स्फुरदिनविशदम् तावदेवम् क्युपास्तिम् कुर्वन्नैकात्म्यबोधे चडिति विकसदि त्वन्मयोहञ्चरेयम् त्वद्धर्मस्यास्य भगवन् प्रस्तुतस्य प्रणाश्यस्तस्मात् सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गम् मनोज्ञम् तम् चैनम् भक्तियोगम् द्रढयितुमयि मे साध्यमारोग्यमायुर्दिष्ट्या तत्रापि सेव्यन्तवचरणमहो भेषजायेव दुग्धम् मार्कण्डे यो हि पूर्वम् गणकनिगदि दद्वादशाब्दायुरुचैः सेवित्वा वत्सरन्त्वान्तव भटनिव फैर्द्रवयामास मृत्युम् मार्कण्डे यश्चिरायुः स खलु निन्ये तपस्यन्नतुलसुखरद्दिषट्तुमन्वन्तराणि देवेन्द्रः सप्तमस्तम् सुरयुवतिमरुन्मन्मथैर्मोह इष्यन्योगोष्मप्लुष्यमाणैर्नदु पुनरशकत्वज्जनन् निर्जयेत्वः प्रीत्या नारायणाख्यस्तमथ नरसखः प्राप्तवानस्य पार्श्वन्तुष्ट्यातोष्ठूयमानः विविधवरैर्लोभितो नानुमेने द्रष्टुं मायान् त्वदीयाङ्किल पुनरवृणोद्भक्तितृप्तान्तरात्मा माया दुःखानभिज्ञस्तदभिमृगयदे नूनमाश्चर्यहेतोः या दे त्वय्याशुवादाकुलजलदगळत्वयपूर्णादिघूर्णत्सप्तार्णो राशिमग्ने जगदि सदुजले सम्भ्रमन्वर्षकोडीः देहप्रैक्षिष्टदूरे वडदलशयनं कञ्जिदाश्चर्यबालन्त्वमेव श्यामलाङ्गं वदन सरसि जन्यस्तपादाङ्गुलीकम् दृष्ट्वा त्वां ह्ष्टरो मा त्वरिदमुपगदस्पष्टुकामो मुनीन्द्रः श्वासेनान्तर्निविष्टपुनरिह सकलन् दृष्टवान्विष्टपौखम् भूयोऽपि श्वासवादर्बहिरनुपदिदो त्वत्कडाक्षैर्मोदाश्लेष्टुकामस्त्वयि पिहित तन्नौ स्वश्रमे प्राग्वदासीत् गौर्या सार्धं सिद्धाने वास्य दत्त्वा एवं त्वत्सेवयैव स्मरजिपुरपि सं प्रीयते येन तस्मान्मूर्तित्रय्यात्मकस्त्वन्ननु सकल नीयन्तेदि सुव्यक्तमासीत् त्र्यंशेऽस्मिन् सत्यलोके विधिहजिपुरभिन्मन्दिराण्यूर्ध्व मूर्ध्वन् तेभ्योऽप्यूर्ध्वन्तु माया विकृतिविरहितो भाधिवैकुण्ठलोकः तत्र त्वङ्कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चिद् ब्रह्माद्वयात्मा पवनपुरपदे पाहि सर्वरोगाद सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द